हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे द्वितीयस्कन्धे प्रथमोऽध्यायः मत्स्यगन्धोत्पत्तिवर्णनम् ऋष्यवोचो आश्चर्यमेकमेतस्य वचनम् गर्भहेतुकम् सन्देहोत्र समुत्पन्न सर्वेषां न तपस्विनाम् माताव्यासस्य मेधाविन्नाम्ना सत्यवतीति च विवाहिताजा शुनाथ तैयार कथम व्यासतीवने स्थित ईदृशी सा कथम राजनशनुना तस् पुत्रो भोजा तो कथय सुवृत विस्तरेण महाभाग कथम पवनी उत्पत्ति व्यास्य तथा रुद्रुकामा पुनः सर्वे ऋषय संशितव्रतः सूत उवाच प्रणम्य परमां शक्तिं चतुर्वर्ग पदायिनीम् आदिशक्तिम् वदिष्यामेकसां पौराणिकीम् शुभाम् यस्योच्चारणमात्रेण सिद्धिर्भवति शाश्वती व्याजेनापि हि बीजस्य वाग्भवस्य विशेषतः सम्यक् सर्वात्मना सर्वैः सर्वकामा स्मर्तव्या सर्वथा देवी वाञ्छितार्थ पलायिनी राजा उपरि चरो नाम धार्मिक सत्यसङ्ग्रह चेदीशपथे श्रीमान् बभूव द्विजपूजकः तपसा तस्य तुष्टे न विमानम् स्फाटिकम् शुभम् दत्तम् इन्द्रेण तत्तस्मै सुन्दरम् प्रियकां सर्वत्र याति दिव्येन भूपतिः न भूमौ परिष्ठोऽसौ तेनारी चरो वसु विख्यातु धर्मनीत सूपति तर भ्याम सुंदरी पुत्राशा महवीर पंचा सन्मितौजस पृथ्देशन भूभुज वसस्तुपत्नी गिरीका ऋतुकाल मनो प्राप्त साने शुचि तदः पितरश्चयनम् ऊचु जहि मृगांसि तच्छ्रुत्वा चिन्तयामास भार्याम् मृदुमतीम् तथा पितृवाक्यम् गुरुम् मत्वा कर्तव्यमिति निश्चितम् चारे मुगुरयाम् मृगयाम् राजा गिरिकाम् मनसा स्मरन् वने स्थितस राजश्रीचित्ते सौस्मारभामिनीम् अतीवरूपसम्पन्नाम् तसरे तत्सरेतस्त्रजस्कन्द स्मरतस्ताञ्च कामिनीम् वटपत्रे तु तद्राजा स्कन्नमात्रम् समाक्षिपत् इदम् वृथा परिस्कन्दम् रेतो वेन भवेत भवेत् कथम् ऋतुकालम् च विद्याय मतिम् चक्रेनुपस्तदा अमोघम् सर्वथा वीर्यम् मम चैतन्यसंशयः प्रियायै प्रेषयाम्येतत् इति बुद्धिम् अकल्पयत् शुक्रस्थापने कालं महिषा प्रसमीक्षस अभिमन्त्र्यार्थ तद्वीजं वटपर्ण पुटीकृतम् पार्श्वस्थंशेन मा भाष्य राजो वाच्यद्विजं प्रति गृहाण इदम् महाभाग गच्छ शीघ्रं गृहम् अव मत्प्रियार्थम् इदं सौम्य गृहीत्वा तं गृहं नय गिरिकायै प्रयच्छ तस्या इत्युक्ता प्रदतो पर्णं शेनाय नृपसत्तमः स्वगृहीतो तपातासु गगनं गतिवित्तमः गच्छन्तं गगनं शयनं धृत्वा चञ्चुपुटे पुटं तमपश्य अथायन्तं खगं शेन तथा परः अमरीषं तु सुविज्ञाय शीघ्रं लभ्यद्रवत् खगम् तुण्डयुद्धं मधाकाशे तौ भोसम् प्रचक्रतुः युद्धतोपुतत्रेत सज्जापि यमुनां खगोतौ निर्गतो कामं कुचके पतिते तदा एतस्मिन् समये काचित् अद्रिका नाम चाप्तराः ब्राह्मणं समनुप्रातं सन्ध्यावन्दन तत्परं कुर्वन्ती जलखेलिं सा जले मग्ना चारुसा चग्राह चरणं नारीद्विजस्य वरवर्णिनि प्राणायाम परश्वरिणीम् शशाप भवमत्सीतं ध्यान विघ्न करीयतः स शप्ता विप्रमुख्येन बभूव यमुनाचरी शपरी रूप सम्पन्ना यद्रिका च वराप्ता शेन जगराहे तरसा साधगा मत्स्यणी अथ काले नकेम तत्स्य जीवन है संप्राप्ते दशमे मे मासी बबंधता मनोरमा उदरम विदधाराशुद्धा म्य जीवन है युगम विन सृतम तस्मा उदराषा कुल कुम सुग तथा कन्या शुभनना दृष्ट्वा चर्यम् इदं सोऽथ विस्मयम् परमं गतः राज्ञे निवेदयामास पुत्रो धातु शशोद्भवौ राजापि विस्मया विश्च सुतं जग्राह तं शुभम् स मत्स्यो नाम राजासौ धार्मिक सत्यसङ्ग्रह वसुपुत्रो महतेजा पित्रा तुल्यपराक्रमः कालिका वसुना दत्त जलजीविने नामना कालीति विख्याता तथा मत्स्योदरीति च मत्स्यगन्धेति नामना वैगणे न ना समदायत विवर्धमाना दाशस्य गृहे ता वासवी शुभ ऋषयौ च अद्रिकामन्ना जाता वरातरः विदारिता च दाशेन मृता च भक्षिता पुनः किं बभूव पुनस्तस्य अप्सरायत शापश्चान्तम् कथं सोत कथं स्वर्गम् अवापसा सूतौ वाच यदा सा मुनिना विस्मिता सम्बभूवः स्तुतिं विप्रस्य धीने रुदति तदा दयावान् ब्राह्मण प्राहे तां तदा रुदतिं श्रियं मा शोकम् कुरु कल्याणी मत्क्रोधे शापयोगेन मत्स्ययोनिम् गता शुभे मानुषो जनयित्वा तं शापमोक्षम् अवाप्स्यसि इत्युक्त्वा तेन सा प्राप मत्स्यदेहम् नदी बालको जनयित्वा सा मृता मुक्ता च शापतः सत्यज्यरूपम् मत्स्य दिव्यरूपम् दिव्यरूपं च जगामामरमार्गं च शापान् ते वरवर्णिनी एवं जाता पुत्रैव पाल्यमाना सा व्यवसत मत्स्यगन्धात् दा किशोरी चातिसुप्रभा तस्य कार्याणि कुर्वाणा वासवी चातिसुप्रभा इत्या इति श्रीमद्देवी भागवते मा पुराणे अष्टादशसहस्रं संहितायां द्वितीयस्कन्धे मत्स्यगन्धोत्पत्ति नाम प्रसमोऽध्याय श्रीजगदम्बिगायार्पण मास्तु